पञ्चाशः सर्गः अकम्पनवधम् श्रुत्वा क्रुद्धो वै राक्षसेश्वरः किञ्चिद्दीनमुखश्चापि सचिवां स्तानुदैक्षत स तु ध्यात्वा मुहूर्तम् विचार्य च ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः पुरीम् पर्ययौ लङ्काम् सर्वान् गुल्मानवेक्षितुम् ताम् राक्षसगणैर्गुप्ताम् गुल्मैर्बहुभिरावृता ददर्श नगरीम् राजा पताका ध्वजमालिनी रुद्धान्तुनगरीम् दृष्ट्वा रावणो राक्षसेश्वरः उवाचात्महितम् काले प्रहस्तम् युद्धकोविदम् पुरस्योपनिविष्टस्य सहसा पीडितस्यः नान्ययुद्धात् युद्धविशारदा अहम् वा कुम्भकर्णो वा त्वम् वा सेनापतिर्मम इन्द्रजिद्वानि कुम्भो वा वहेयुर्भारमीदृशम् स त्वम् बलमतः शीघ्रमादाय परिगृह्य च विजयाभिनिर्या हि यत्र सर्वे नौकसः निर्याणादेव तूर्णम् च चलिता हरिवाहिनी नर्दताम् राक्षसेन्द्राणाम् श्रुत्वा नादम् द्रविष्यति चपला ह्य विनीताश्च चलचित्ताश्च वा नराः न सहिष्यन्ति तेनादम् विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह अवशस्ते निरालम्बः प्रहस्तवशमेष्यति आपत्संशयिताः श्रेयो नात्र निःसंशयीकृता प्रतिलोमानुलोमम् वा नैव मुक्तस्त्व प्रहस्तो वाहिनीपतिः राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोषणा राजन्मन्त्रितपूर्वम् नः कुशलैः सह मन्त्रिभिः विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् प्रदानेन तु सीताया श्रेयो व्यवसितम् मया अप्रदाने पुनर्युद्धम् दृष्टमेव तथैव नः सोऽहम् दानैश्च मानैश्च सततम् पूजितस्त्वया सान्त्वैश्च विविधैः काले किम् न कुर्याम् हितम् तव न मे जीवितम् रक्ष्यम् पुत्रदारधनानि च त्वम् पश्यमाम् जुहूषन्तम् त्वदर्थे जीवितं युधी एवमुक्त्वा तु भर्तारम् रावणम् वाहिनीपतिः उवाचेदम् बलाध्यक्षान् प्रहस्तः कुरतस्थितान स्थितान् राक्षसानां महाबलं राक्षसानाम् महाबलम् मद्बाणानाम् तु वेगेन हतानाम् चरणाजिरे अद्यतृप्यम् तु माम् सादाः काननौकसा तस्य तद्वचनम् श्रुत्वा बलाध्यक्षा महाबलाः बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे सा बभूव मुहूर्तेन भीमैर्नानाविधायुधैः लङ्काराक्षस वीरैस्तैर्गजैरिव समाकुला हुताशनम् तर्पयताम् ब्राह्मणांश्च नमस्यताम् आर्य सुरभिर्मारुतो भवौ स्रजश्च विविधाकारा जगृहस्त्वभिमन्त्रिताः सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः रावणम् प्रेक्ष्य राजानम् प्रहस्तम् पर्यवारयन् अथामन्त्र्य तु राजानम् भेरीमाहत्य भैरवाम् आरुरोहरथम् युक्तः प्रहस्तः सज्ज कल्पितम् हयैर्महाजवैर्युक्तम् सम्यक् सूतम् सुसंयतम् महाजलद निर्घोषम् साक्षाच्चन्द्रार्कभास्वरम् उरगध्वजदुर्धर्षम् सुबरूथम् स्वपस्करम् सुवर्णजालसंयुक्तम् प्रहसन्तमिव श्रिया ततस्तम् रथमास्थाय रावणार्पितशासनः लङ्काया निर्ययौ तूर्णम् बले न ततो दुन्दुभि निर्घोषः पर्जन्य निनदोपमः वादित्राणाम् च निनदः पूरयन्निव मेदिनीम् शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ निनदन्तस्वरान् घोरान् राक्षसा जग्मुरग्रतः भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः नरान्तकः प्रहस्तसचिवाह्येते निर्ययुः परिवार्यतम् व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ गजयूथनिकाशेन बलेन महता वृतः सागरप्रतिमौघेन वृतस्तेन बलेन सह प्रहस्तो निर्ययौ क्रुद्धः कालान्तकयमोपमः तस्य निर्याणघोषेण राक्षसानाम् च लङ्कायाम् सर्वभूतानि विने दुर्विकृतैश्वरैः व्यभ्रमाकाशमाविश्य मांस शोणित प्रति भवन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे भवौ अन्योन्यमभि संरब्धा ग्रहाश्च मेघाश्च खर निर्घोषारथस्योपरि रक्षसः ववर्षोरुधिरम् चास्य शिशिचुश्च पुरःसरान् विलीनो दक्षिणामुखः नदन् नुभयतः पार्श्वम् समग्राम् श्रियमाहरत् सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः सूतस्य हयसादिनः निर्याणश्रीश्च या च स्याद्भास्वरा च सुदुर्लभा सा ननाशमुहूर्तेन समे च स्खलिताः याः प्रहस्तन्तम् हि निर्यान्तम् प्रख्यातगुणपौरुषम् युधिनाप्रहरणा कपि सेनाभ्यवर्तत नदताम् राक्षसानाम् च वानराणाम् च गर्जताम् उभे प्रमुदिते सैन्ये रक्षोगणवलौकसाम् वेगितानाम् समर्थानामन्योन्यवधकाङ्क्षिणाम् परस्परम् चाह्वयताम् निनादश्रूयते महान् ततः प्रहस्तः कपि राजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः विवृद्धवेगाञ्च विवेशताम् च मोम् विभावसुम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे सप्त पञ्चाशः